श्रीहरये नमः अथ चतुर्थोऽध्यायः व्यास उवाच इति ब्रुवाणं संस्थूय मुनीनां दीर्घसत्रिणां वृद्धस्कुलपते सूतं भवृच्छस्सौ नको सौनक उवाच सूतः सूतमहाभागवत नो वदनां कथां भगवतीं पुण्यां व्यधाक भगवान् सुखः कस्मिन् युगे प्रवृत्तेयं स्थाने वा हेतुना कुतः सञ्चोदितः कृष्णः कृतवान् तस्य पुत्रो महायोगी समद्रिङ्निर्विकल्पः एकान्तमधिरुन्नि ्रो गूढो मूटयि वेयते दृष्ट्वानुयान्तं ऋषिमात्मझम व्यनग्नं देव्यो ह्रिया परिधतुर्न सुतस्य चित्रं तद्वीक्ष्य भृच्छति मुनो जगतोस्तवास्ति स्त्रीपुम्भिता न तु सुतस्य विविक्तधृष्टेः कथमालक्षितपौरैः सम्प्राप्तगुरुजाङ्गलान् उन्मत्तमोकझटवत् कथं वा पाण्डवे यस्य संवाद सम्भोत्थादयत्रैक्षा सात्वति श्रुति हे सघोदहनमात्रम् हि गृशे सुगृहमेधिना अवेक्षते महाभागस्तीर्तिकुर्वन् तथाश्रमम् अभिमन्युसुतम् सोत तस्य जन्म कर्माणि च गृहिणी हिनः स सम्राट् प्रायो भविष्ठो गङ्गायामनाधृत्य अधीराश्रियं नमन्ति यद्बादनिकेतमात्मनः शिवाय हानियदतानि शत्रवः कथं स वीरश्रियमङ्गधुस्त्यजान् युवैक्षतोत्स्रष्टुम् अहो सखा सुभीः शिवाय लोकस्य भवाय भूते यत् उत्तमः श्लोकपरायणा जनाः जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्यकुत कलेवरं तत्सर्वं न क्षमाचक्ष्वभ्रष्टो यदिह किञ्चन द्वापरे समनुप्राप्ते तृतीये युगपर्यये जातः परा सराद्योगि वासव्यां कलया हरेः स कदाचित् जलं सुचि विविक्तदेश आसेन उदितेरविमण्डले परावरज्ञः सऋषि कलेना व्यक्तरं हसा युगधर्मव्यधिकरं प्राप्तं भुवि युगे, युगे। भौतिकानां च भावानां शक्ति ह्रासं च तत्कृतम् अस्तधानासि सत्त्वान् दुर्मेधान् ह्रसितायुषः दुर्भगांश्च जनान् वीक्ष मुनिर्दिव्येन चक्षुषा सर्ववर्णाश्रमाणां यद्ध्यौहितं ममो गत्र चातुर कर्मशुद्धं चातुर्होद्रम् प्रजानां वीक्ष वैदिकम् व्यददात्यज्ञ सन्ति सत्यै वेदमेहं चतुर्वितम् ऋग्यजुषाम अथर्वाक्या वेदाश्चत्वारमुद्धृताः इतिहासपुराणं च पञ्चमो वेद उच्यते तत्र ऋग्वेदधतरः पैलसामगो जैमिनिकविः वैशम्पायन एवैको निष्णातो यजूक्षामुत, अथर्वाङ्गीरसामासीत् सुमन्धुर्धारुणो मुनीः इतिहासपुराणानां पिता महर्षणः स एतऋषयो वेदं स्वम् स्वं व्यसन् अने गता शिक्ष्यैः प्रशिक्ष्यैस्तक्षिक्षैर्वेदास्ते साकिनो भवन् त एव वेदा धार्यन्ते पुरुषैर्यथा एवं शाकरभगवान् व्यास कृपणवत्सलः स्त्रीशूद्रद्विजबन्धूनां त्रयीणश्रुतिगोचरान् कर्म श्रेयसि मोढानां श्रेय एवं भवेदिह इति भारतम् आज्ञानां कृपया कृतम् एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः सर्वात्मकेनाबि हृदयम् ततः नादिप्रसीदत् हृदयः सरस्वत्यास्तटे सूच्यो विदर्कयन् प्रवोच धर्मवेद् धृतौ व्रतेन हि मया छन्दांसि कुरो वोग्नयः मानिता निर्व्यलीकेन गृहीतं चानुशासनं भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः दृश्यते यत्र धर्माति स्त्री अभ्युतान् तथापि पथमे दह्यो ह्यात्मा शैवात्मना विभुः असम्पन्न इवा भाति ब्रह्मवर्चस्य सत्तमः किं वा भागवता धर्मो न प्रायेण निरूपिताः प्रिया परमहं एव ह्यश्च्युतप्रियाः तस्यैवं किलमात्मनं मन्यमानस्य खिद्यतः कृष्णस्य नारदो यागात् आश्रमं प्राक् तमभिज्ञाय सहसा प्रत्युत्ताया गतं मुनिः पूजयामासविधिवद् नारतं सुरपूजितं। इति श्रीमद्भगवत महापुराणे प्रथमस्कन्तेन इमीशो वोग्भाग्येन चतुर्थोऽध्यायख सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सदगुरू महाराज की जय